पञ्चत्रिंशोऽध्यायः भीमसेन उवाच सन्धिम् कृत्वैव कालेन ह्यन्तकेन पतत्रिणा अनन्तेनाप्रमेयेण स्रोतसा सर्वहारिणा प्रत्यक्षम् मन्यसे कालम् मर्त्यः फेणधर्मा महाराज फलधर्मा तथैव च निमेषादपि कौन्तेय यस्यायुरपचीयते सूच्ये चूर्णस्य किमिति प्रतिपालयेत् योऽनममितायुः स्यादथवापि प्रमाणवित् सकालम् वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् प्रतीक्ष्यमाणः कालो न समाराजंस्त्रयोदश आयुषोपचयम् कृत्वा मरणायोपनेष्यति शरीरिणाम् हि मरणम् शरीरे, शरीरे नित्यमाश्रितम् प्रागेव प्रागेवमरणात्तस्माद्राज्ञायैव घटामहे यो न यातिप्रसङ्ख्यानमस्पष्टो भूमिवर्धनः अयातयित्वा वैराणि सोऽवसीदति गौरिव यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान् अफलम् जन्म तस्याहम् मन्ये दुर्जातजायिनः हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिवी हत्वा द्विषन्तम् सङ्ग्रामे भुङ्क्ष्व बाहुजितम् वसु हत्वा वै पुरुषो राजन्निकर्तारमरिन्दम अन्हायनरके स